मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं तर्टि नैन् लोभासुरब्रह्माण्डजयं श्रीगणेशाय नमः मुद्गल उवाच ततो दिदुःखितो विष्णोर्देवेन्द्रैश्च समन्वितः त्यक्त्वा विकुण्डमेवं स ययौ शम्भुं शरण्यकम् गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः स्तुत्वा वृत्तान्तमेवं स कथयामास विस्तराद श्रुत्वा महेश्वरो विष्णुं सदेवं स्वपुरागदं सान्द्वयामास युक्तैश्च नाना दृष्टान्तदर्शनैः शिव उवाच मा चिन्ताम् गुरुवृष्णो त्वं सर्वज्ञ जगदीश्वरः तपः पुण्यम् महोग्रम् यत्तेन त्वम् स पराजितः तपः कृतम् च लोभेन फलम् तस्य जनार्दन भुक्त्वा मरिष्यदेनाथ कालस्तत्र प्रतीक्ष्यताम् देवैः सह महाविष्णो मत्समीपे स्थिरो भव मदीयभक्रियुक्तो ह्यागमिष्यत्यत्र नैव सह यवमुक्त्वा वचो विष्णुं शङ्करशोकसंयुगः देवैस्तेन समायुक्तो तिष्ठत्कैलासपर्वदे अधलोभासुरं सर्वैः संस्थितं दानवैर्वृतम् इन्द्रासने महाबाहुं तमोचुर्दानवोत्तमाः विप्रचित्याद्या उजुः लोभलोभमहाभागशृणुनो भा वचनं हितं विष्णुर्देवगणैः सर्वैः कैलासे शङ्करं ययौ अस्माकं शङ्करसोऽपिष्ठदेवः पूज्य आदराद् शत्रून् रक्षति नः शम्भुर्भविष्यति विपक्षकः अधुना शङ्करस्यास्य भावार्थं प्रेष्यतां महान् दूतसर्वार्थसूज्ञकस्तदः क्षेमम् भविष्यति शिवो यदि स देवानां पक्षगो भवति प्रभो तदा शम्भुं प्रजेष्यामस्तपो बलसमन्विताः न ते शम्भुर्वरस्यैव दादा जानीहि मानद दा, कर्मणां फलदादारकृदा देवाश्च कर्मणा कर्माधीनं जगत् सर्वं स देवासुरमानुषं कर्माज्ञावशकं दैत्यकर्मणात्वं महाप्रभुः देवाकर्मबलं लोभा ददेन विशेषदः तदैश्वर्यविहीनास्ते पदन्तिः स्वपदात् किल अधस्त्यक्त्वा स्वसन्देहम् त्यज शम्भुं विपक्षगम् कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यदि इत्युक्त्वा दानवेन्द्रास्ते विरामं चक्रुरञ्जसा लोभासुरस्ततस्तेषां वचने निरतोऽभवद गजासुरं महावीर्यं प्रेषयामास सत्वरम् कैलासे शङ्करस्यैव भावार्थम् भावधारकः गत्वा शम्भुमहा दैत्यप्रणम्य प्रत्युवाच सः वचनं लोभदैत्येन प्रेषितम् सामपूर्वकम् गजासुर उवाच नमस्तुभ्यं शृणु मे वचनं हिदं लोभासुरेण देवेश प्रेषितोऽहं विशेषतः तेन सङ्कथितं वाक्यं तच्छृणुष्व सुखप्रदं त्वं साक्षादीश्वरपूर्णोऽस्माकं पूज्यो निरन्तरं नागतस्ते। प्रसन्निधौ अस्माकं शत्रुरेवासौ तं त्यजत्वं सदाशिवयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते मित्रं शत्रुस्तथा शम्भो पालयस्वादराद्धिनः नो चेत्सङ्ग्रामभावेन जेश्यामस्वाम न संशय कर्मण्व समेत सं जा भुंक्स्विष्टपम कर्मण लोपक शंभो सर्वश्वुदुना तस्दस्मभाग रक्ष भक्ति संयुताचनम शुवा ब्रवी निश्वास शङ्करः गजासुरं स्वयं साम्ना वचनं हितकारकं शिव उवाच गजासुरमहालोभं वदमेव जनं हितं गत्वा तं दानवेन्द्रं त्वं सर्वासुरसमन्वितं कैलासं विष्णुना सहितोहं स्वदेवपैः गच्छामि यत्र कुत्रापि न जनार्दनम् कर्म थम समश्चे सर्वं चराचरं ते भू स्वाधीनम नात्र संशय यमु सुदुर्बुद्धि शंकर सुरनायक जगाम पर्वतोदेशे त्यक्त कैलासमन महावने महे शानपर्वतद्रोणिमाश्रितः देवैर्विष्णुमुखै सर्वैः पशुवत्कालजालकः गजासुरः सभां गत्वा जगाद सकलैर्युदं लोभासुरं स वृत्तान्तं श्रुत्वा संहर्षितो भवद ततः सत्यलोके शङ्करालये दानवान् स्थापयामासनादेव पदेशु वै इन्द्रासनं परित्यज्य ययौ भूम्यां महासुरः स्वपुरे दानवेन्द्रैश्चावसद्भोगपरायणः न मर्श निजात्मानं गर्विधः केवलं श्रीमांस मदिरादिश्वाः संसक्तोऽभूत् सुदुर्मदिः धन्यमात्मानमेवं स मन्ये स्म कृतार्थकं ब्रह्माण्डं वश गं मे भून्नमत्तश्रेष्ठ एककः ॐ तत्सदिति श्रीमदान्ध्ये पुराणो वनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजानन चिदे लोभासुरब्रह्मांडजको ना नाशोध्याय ओम।